त्रयोदशोऽध्यायः ध्यानम् ओ बालार्कमण्डलाभासाम् चतुर्बाहुम् त्रिलोचनाम् पाशाङ्कुशवराभीतीर्धारयन्तीम् शिवाम् भजे ओम् ऋषिरुवाच एतत्ते कथितम् भूपदे वीमाहात्यमुत्तमम् एवम् प्रभावा सा देवी ययेदम् धार्यते जगत् विद्या तथैव क्रियते भगवद्विष्णुमा यया तया त्वमेष वैश्यश्च तथैवान्ये विवेकिनः मोह्यन्ते मोहिताश्चैव मोहमेष्यन्ति चापरे तामुपैः महाराजशरणम् परमेश्वरीम् आराधिता सै मनृणाम् भोगः स्वर्गापवर्गदा मार्कण्डेय उवाच इति तस्य वचः श्रुत्वा सुरथः सहराधिपः प्रणिपत्य निर्विण्णोति ममत्वेन राज्यापहरणेन च जगामसद्यस्तपसे सचवैश्यो च महामुने सन्दर्शनार्थमम्बाया नदीपुलिन संस्थितः स च देवी सूक्तम् परम् जपन् तौ तस्मिन्पुलिने देव्याः कृत्वा मूर्तिम् महामयीम् अर्हणाम् चक्रतुस्तस्याः पुष्पधूपाग्नितर्पणैः निराहारौ यदाहारौ तन्मनस्कौ समाहितौ ददतु स्तो बलिम् चैव निजगात्राभुक्षिदम् एवम् समाराधयतोऽस्त्रिभिर्वर्षैर्यतात्मनोः परितुष्टा जगद्धात्री प्रत्यक्षम् प्राहचण्डिका देव्युवाच यदि प्रार्थते त्वया भूप च कुलनन्दन मत्तस्तत्प्राप्य राम् सर्वम् परितुष्टा ददामि मार्कण्डेय उवाच ततो वव्रे नृपो राज्यमविभ्रंशेऽन्यजन्मनि अत्रैव च निजम् राज्यम् हतशत्रुबलम् बलात् सोऽपि वैश्यस्ततो ज्ञानम् वव्रे निर्विण्णमानसः ममेत्यहमिति प्राज्ञः सङ्गविच्युतिकारकम् देव्युवाच स्वल्पैरहोभिर्नृपते स्वम् राज्यम् प्राप्स्यते भवान् हत्वा रिपूनस्खलितम् तव तत्र भविष्यति मृदश्च भूयः सम्प्राप्य जन्मदेवाद्युवस्वतः सावर्णिको नामनुर्भवान् भुवि भविष्यति वैश्यवर्यत्वया यश्च वरोऽस्मत्तोऽभिवाञ्छितः तम् प्रयच्छामि संसिद्धि तव ज्ञानम् भविष्यति कंडेय उवाच् दत्वा तोर्देव यथाभित बभूवा सद भक्ता वरम लब्ध्थ क्षत्रियर्षभ सूरियाजन्म सवर्णिभविता मनु एव्या लब्ध्थ क्षत्रियर्षभ सूर्याज्जन्मसमासाद्य सावर्निर्भविता मनुः क्लीम् ओ इति श्रीमार्कण्डेयपुराणे सावर्णिके मन्वन्तरे देवीमाहात्म्ये